नमस्सर्वेभ्यः अस्माकं योगनिष्ठजीवनमिति वर्गे भवतां सर्वेषां स्वागतम् अत्र अस्माकं विषयं प्रति गमनात् प्राक् किञ्चित् अस्माकं शिबिरस्य विषये वक्तुम् इच्छामि यत् शिबिरं वाराणाम् आसीत् डिसेम्बर् तत्र आ, बहु सम्यक् आसीत् सम्यक्तया तत्र शिबिरं समापितमपि बहवः जनाः आगताः बहु uh, नूतनजनाः you know, uh, बहवः आगताः युनो रेञ्जिङ्ग् फ्रम् एय्टीन् इयर्स् टु सेवेण्टि इयर्स् बहवः जनाः आसन् सर्वेषां तत्र योगनिष्ठजीवनम् इत्यस्य प्रत्यक्षानुभवः प्रत्यक्षानुभवः जातः इत्युक्ते तत्र कथं सात्विकाहारः इति यद्वयं वदामः पालनं कथं कर्तुं शक्नुमः प्रातः आरभ्य Uh, रात्रिपर्यन्तं किं किम् अस्माभिः खादितं किं खादनीयं तत्तु तत्र तस्मिन् तत्र साल्ट् नास्ति किमपि नास्ति तादृशं वयं कर्तुं शक्नुमः वा न सर्वेषां प्रश्नः भवति खलु तत्र प्रत्यक्षरूपेण अनुभवः जातः अयमेव वास्तविकतया द्विजः इति वयं वदामः नूतनजन्म इति वयं वक्तुं शक्नुमः इट् लैक् like लैफ् चेञ्जिङ्ग् इवेण्ट् जनाः आगच्छन्ति प्रत्यक्षरूपेण अनुभवं प्राप्नुवन्ति मानवजीवनस्य अनुभवं प्राप्नुवन्ति पशुजीवनं न मानवजीवनं तर्हि प्रातः पञ्चवादने अस्माकं मेडिटेशन् भवति साधना भवति तदनन्तरम् आसनानि योगासनानि वयं कुर्मः तत्पश्चात् तत्र वयं बहिः गच्छामः व्यायां व्यायामं कर्तुं तत्र पीपल् रन् विगो औट् सैड् एण्ड् रन् and then after that we do and then uh, we have a breakfast you know satvik ahara and then dinetu uh, datra sessions bhavanti yatra bahavaha vishayah uh, charchitah bhavanti ye vishayah smakam nutana jana namishi na kevalam nutana jana nam parantu sarvesham krute labhadayakam asti tadarsha vishayanam charcha दिने भवति पुनः सायङ्काले आसनानि भवन्ति मध्याह्ने अपि साधना भवति वयं बहिः अपि गच्छामः तत्र गङ्गानदी अस्ति खलु तस्य पार्श्वे स्थित्वा तत्रापि वयं साधनां कुर्मः बहु आनन्ददायकः अनुभवः अस्ति इट् इस् यु नो द लैफ् स्टैल् विच् इस् इट् इस् कण्ड्यूसि रियलैजेशन् आफ़् द इन्फैनैट् that is what is called as yoganashthajivanam so that what is that lifestyle is what you get direct experience for one full week 24 hours a day and seven days so it starts from 5 in the morning and ends only at 10 o'clock in the night so it's continuous it's, it's not stop it's just it's just continuous one after the other right so uh, i am eva dvijah aitavaktum shaktam yadi api asmakam shaririko rupena janma bhavati parantu atra patam vayam vyavahartavyam ityasya vishe au samnyekaya अनुभवः भवति अपि च तत्र वयं सर्वे मिलित्वा वसामः खलु अतः परस्परं तत्र स्नेहभावः अपि वर्धते इति ते सर्वेषाम् अस्माकं परिचयः नास्ति बहवः नूतनजनाः सन्ति ये वयं पूर्वं न दृष्टवन्तः तथापि अस्माकं प्रीतिभावः वर्धते तत्र सर्वात्मकभावः अपि वर्धते ये जनाः अस्माभिः पूर्वं कदापि न दृष्टाः तथापि तं प्रति अपि प्रीतिः वर्धते इति तत्र स्वाभाविकः यतोहि वयं मिलित्वा वसामः अनेन वि गेट् अ वेरि डीप् एक्स्पीरियन्स् आफ़् देट् सर्वात्मकभाव रैट् दे आर् लैक् स्पेण्डिङ्ग् द होल् वीक् यु नो ईटिङ्ग् अण्ड् स्लीपिङ्ग् एव्रिथिङ्ग् टुगेदर् डूङ्ग् साधना अबौ आल् एव्रिथिङ्ग् इस् वि डूयिङ्ग् मेडिटेशन् टुगेदर् रैट् इट् हेस् अ वेरि वेरि डीप् इम्पाक्ट् अण्ड् इट् जस् एलिवेट्स् युर् मैण्ड् मनसः वर्धनं तथा भवति अहं वक्तुमेव न शक्नोमि इट् इस् कम्प्लीट्लि औट् आफ़् out of the world experience because uh, what happens is that in your meditating right and 24 hours of the day you're only thinking and also the place at varanasi place where we are is completely away from the city uh, there is nothing no shops there is nothing it's just complete fields and then there is a river and you know green fields vacant lands and no not many human beings around right it's just perfect for this kind of uh, environment so you can just go around them you know it's just very calm and soothing for the mind also we keep doing sadhana right three times a day and also the satsangs right so everything has a very profound impact on your mind and you feel at the end of the week you feel your mind is elevated on a lot to elevated a lot and you don't you're not thinking about the day to day stuff right you're you're not doing your uh, your daily routine right this is this is completely a different kind of routine so it's obviously to the life stage is faced for many of them uh and for me it is uh, for me as well it's a life changing experience the only thing is that i have done it two times before so this is a third time uh, so obviously every time i get different uh, every time i get more deeper experience uh, so it was absolutely wonderful and uh, you know so every day was incredible right and, and the sessions and the discussions everything was very very meaningful and we will be doing this again in december the coming december and do sophie have not come right you should you should try to come right it is it is uh, you know it is worth your effort it's worth your time it is it's very beautiful you have to come it is uh, you get uh, you get to see you know how more they live you get to see that right that is very precious right uh, you you will not see that anywhere like how you can live how you can live like that is uh, you know practically so whatever we've been talking about uh, it is just not speech it can be implemented is what uh, you get to see that you know somebody who's just not just preaching right you can hear people preaching all the time right do this do that and all that but they don't do it but here you have somebody who does every every bit of what he preaches so when you have that kind of a person there in front of you the inspiration is like obviously very very deep deep inspiration you can get so from that perspective also it's a very very good like you know sometimes sometimes when we say things by words we don't understand or we don't take it seriously but then when you actually observe somebody right then you you see by observing that person you see how that person has reformed or how he has changed that has a deep impact on your mind right so from that perspective also it's very very nice to come to the shiva because that kind of experience you'll never get and also to learning sadhana right you cannot learn sadhana remotely so you have to be in person so but that also this is is uh, very very good to come to the shivir so uh, you know if i know this year you, you guys could not make it but next year you should definitely plan on coming how many are there are there rooms were the people share the rooms or is the hall window? yeah we we have we have shared rooms uh, for ladies it's separate and for men it is separate so yeah there are shared rooms available also there are separate single rooms are available but not many single rooms but there are a lot of shared rooms available so that way you you get to live together with uh, a lot of people uh, it's it's it's perfectly fine no issues everything is available and uh, for one week whatever you need everything is available so yeah it is good uh, no no complete it's all it's all good nice environment everything is good yeah, you like really like it how many people were there basically i think uh, 30 to 35 35 people there yeah mm -hmm. okay so it was it was actually a good experience for me for so personally uh, it was really very very elevating uh, it elevates your mind and uh, you know i got to learn a lot of uh, things got to meet a lot of new people got more inspiration so all that it is all are very good it's uh, very good you get to learn sadhana and uh, also like you know whatever things you missed in the prior uh, shiva shibirams you you get to refine that like for instance asanas maybe you're not doing something properly you can get to refine that uh, and also right like a lot of new things were discussed so initially first time when you come it everything is new right so you don't get a lot of out of it even though everything seems nice and Uh, you want to implement, but you, you can't absorb everything in the first time. So the, when you go the second or third time, you get, now it is like all familiar, right? So you, you get to pick it up more quickly than what you did before. So also you get a discipline, right? The discipline is something that we always lack, right? Uh, having a routine, like getting up early in the morning at 5 o'clock in the Brahma Murta, getting up in the Brahma Murta, doing meditation, and then, uh, you know, following a routine that is what sometimes we miss right so this is a very good way for establishing a routine in terms of saying like what i should do at what point in time how i should how my life should be right how i should uh, organize my life how i should utilize every minute of the day how i should not waste time all those things uh, are very good you will you get to learn all of that also the the important thing was that, uh, the meditation uh, sitting near ganges was really really very very out of the world it was very beautiful uh, you know it's so calm and you know the energy was very good the, the group energy was extremely good so your meditation is also very good in in such a location right even it, i mean it is, it's really not dependent on the location meditation but uh, especially when you are in such a place then automatically the the setting the mind everything is like right. is perfect for meditation so that was very good like so we we tried to go every day uh, the weather was actually good in varanasi it was not very cold uh so it was perfect so we could go go out during the day or in the evening uh, to the near the river to do our meditation so that was very very good and that there was a key point everybody enjoyed right so so with that kind of motivation when we come back we have to we have to implement everything that we have learned right so that that experience you will get only when you come there right uh, you will not get that experience just sitting in the class in, in the sessions here so uh, all of you next time uh, plan on coming to the shivaram okay so can we uh, now go to the uh, go to the go to our discussion on what is uh, dharma so i uh, actually we started with this karapatra what is uh, dharma so we said that you know human beings are the highest evolved beings right they possess the clearly reflected consciousness uh they have a well developed mind and they're superior to animals so all beings actually uh, you know want happiness sarve jiva ah uh, anandam ichanti ah manushya ah api anandam ichanti manushya manashanam tu विकसित चैतन्यं वर्तते ते अपि आनन्दम् इच्छन्ति आनन्दं प्राप्तुं किं कुर्वन्ति इति चेत् जनाः तत्र सीमितवस्तु वस्तूनां पृष्ठतः ते धावन्ति तर्हि लोके यत्किमपि यत्किमपि वस्तु भवतु नाम तस्य पृष्ठतः धावन्ति जनाः परन्तु देभ्यः वस्तुभ्यः ते सुखं न प्राप्नुवन्ति अतः तेषां बुभुक्षा तत्र निवारिता न भवति अतः तत् निरन्तरं तत्र आनन्दस्य पृष्ठतः ते धावन्ति एव परन्तु तत्र वास्तविक आनन्दं ते न प्राप्नुवन्ति यतोहि लोके यत्किमपि अस्ति तत्सर्वमपि सीमितम् अस्ति यत्किमपि बहु उच्चतमं अपि किमपि भवतु नाम तेनापि तत्र सुखं न लभ्यते तर्हि तत्र कस् कस्मात् अस्माकं वास्तविक आनन्दं लभ्यते इति चेत् तत्तु आन कस्मात् आनन्दः लभ्यते इति चेत् तत्तु द कास्मिक् एण्टिटि द इन्फैनैट् कास्मिक् एण्टिटि अनन्तसत्ता या सत्ता अस्ति तस्मात् तादृशसत्ता सत्ताभ्यः एव अस्माभिः सत्तातः एव अस्माभिः आनन्दं प्राप्तुं शक्नुमः इति अस्माभिः उक्त उक्तं तत्र तादृश अनन्तसत्ता एव अनन्ता अपि अस्ति तत्र अनादि अपि अस्ति अनन्ता अपि अस्ति तादृशसत्ता तस्मात् तादृशसत्तातः एव वयम् आनन्दं प्राप्तुं शक्नुमः इति इति उक्त्वा अस्माभिः उक्तं तत्र मनुष्याणां धर्मः मनुष्याणां धर्मः अनन्तेषण इति एव मनुष्याणां धर्मः इति उक्तं तदेव तादृशधर्मः एव मनुष्यान् अन्येभ्यः अन्येभ्यः पशुभ्यः पृथक् करोति तर्हि धर्मः इत्यस्य धर्मः इति शब्दस्य कः अर्थः इत्यपि अस्माभिः चर्चितं धर्मः इत्युक्ते तत्र विलक्षणः विलक्षणः गुणः इति यदस्ति वस्तु वस्तुषु यद्विलक्षणः गुणः अस्ति अथवा स्वभावः अस्ति तदेव धर्मः इति वदामः यदा यथा तत्र वनेः धर्मः दहनम् इति वदामः तत्र विलक्षणः गुणः अस्ति एव मनुष्याणां मनुष्याणां धर्मः कः इति चेत् ब्रह्मणः अन्वेषणम् एव मनुष्याणां धर्मः इति अस्माभिः चर्चितम् तदनन्तरम् अस्माभिः उक्तं तत्र मनुष्येषु मनुष्याः तु पशुभ्यः विकसिताः इति कृत्वा मनुष्येषु धर्मद्वयं वर्तते पशुधर्मः अपि वर्तते मानवधर्मः अपि वर्तते अनयोः धर्मयोः मध्ये सर्वदा सर्वकालेषु सङ्घर्षः जायते एव तर्हि प्रायेण सर्वेषां सर्वेषु मनुष्येषु पशुधर्मस्य एव जयः भवति यतोहि तदेव अस्माकं परिचितः धर्मः परिचितः मार्गः अस्ति परन्तु येषां मनुष्याणाम् अन्तश्चक्षुः उद्घाटितः भवति तादृशमनुष्यः एव अनन्तेषाम् अनन्तं प्राप्तुं तादृशमनुष्यः एव चेष्टां करोति तर्हि तदर्थं तत्र प्रथमतया अस्माभिः अवगन्तव्यम् अस्मासु पशुधर्मः अपि अस्ति मनुष्यधर्मः अपि अस्ति अस्माकं लक्ष्यं तु मनु मनुष्यधर्मस्य पालनं पालनमेव अस्माकं लक्ष्यं न तु पशुधर्मस्य पालनम् इति अस्माभिः यदा अवगम्यते तदानीं तत्र तस्मिन् तस्यां दिशिं तस्यां दिशि वयं प्रयत्नं कुर्मः तादृश तत्र अस्माकं अन्ते या इच्छा वर्तते अनन्तेषणा तस्य पूर्तिः अनन्तेषणायाः पूर्तिः भ्रमणः दा द्वारा एव भवति इत्यस्माभिः अत्र चर्चितमस्ति इति कृत्वा अस्माकम् अस्मासु पशुधर्मः वर्तते इति कृत्वा एव तर्हि यत्किमपि लभ्यते चेत् चेदपि अस्माकं तृप्तिः न भवति इतोपि अधिकम् इतोपि अधिकम् अधिकम् अधिकम् इति तत्र तस्मिन्नेव तस्मिन्नेव वयं सर्वदा प्रवृत्ताः भवामः परन्तु अस्माकं तु अन्ते अनन्तेषणा अस्ति अस्ति तस्य प्राप्त्यर्थम् यत्नः करणीयः नैट् लोके यत्किमपि अस्ति तदस्माकम् अन्ते या या इच्छा इच्छायाः पूर्तिः न भवति यतोहि लोके यत्किमपि अस्ति तत्सर्वमपि स्थायी स्थायि नास्ति स्थायि नास्ति किम् अस्ति स्थायि इति चेत् ब्रह्म एव एक एव वस्तु तत्र स्थायी स्थायी अस्ति अतः तस्य ब्रह्मणः प्राप्तिद्वारा द्वारा एव अस्माकं शान्तिः लभ्यते आनन्दः लभ्यते इति अत्र uh, उक्तम् अस्माकं मनुष्याणां तत्र सम्पूर्णतया uh, विकसितचैतन्यं वर्तते तादृशचैतन्यं पशुषु न विद्यते तत्र पशुषु बहुषु तत्र चैतन्यं uh, तत्र सुप्तवस्थायां भवति सुप्तवस्थायां भवति परन्तु मनुष्याणां चैतन्यं विकसितमस्ति अतः एव तत्र अस्माकं विलक्षण अव अस्ति इति कृत्वा अस्माकम् अन्ते चैतन्यं सम्पूर्णतया विकसितमिति कृत्वा आत्मा अन्ते अनन्तस्य एषणा अस्ति तर्हि ये अस्य अनन्तेषणायाः पूर्त्यर्थं यत्नं कुर्वन्ति ते वा वास्तविकतया मनुष्याः भवन्ति ये यत्नं न कुर्वन्ति ते तु अन्ते पशवः बहिः मनुष्यरूपेण ते भवन्ति इति तद् तद् उक्तम् यदस्माकम् इष्टमस्ति तद् लभ्यते चेत् वयं सुखिनः भवामः यदिष्टं तद् तद न लभ्यते तदानीं वयं सुखिनः न भवामः अस्माकम् अन्ततो गत्वा किम् इति चेत् अनन्तप्राप्तिः एव इष्टं वयं न जानीमः प्रायेण वयं न जानीमः प्रायेण जनाः सुप्तावस्थायामेव भवन्ति ते न जानन्ति तेषां मनुष्यधर्मः अपि अस्ति इति न जानन्ति इति कृत्वा ते न कुर्वन्ति परन्तु ये जनाः जानन्ति तर्हि ते तस्मिन् तस्य भ्रमणः प्राप्त्यर्थं यत्नं कुर्वन्ति तर्हि ब्रह्मा अस्ति ब्रह्म अस्ति चेत् ब्रह्म ब्रह्म किम् इति अस्माभिः अवगन्तव्यं तद् अग्रे उच्यते इदानीं तत्र प्रथमकरपत्रस्य प्रथमभागः समाप्तः इदानीं द्वितीयभागे अस्माभिः चर्चा आरब्धा तर्हि तर यत्किमपि कार्यं वयं कुर्मः तत्र अस्माकम् इन्द्रियाणि दश भवन्ति पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि सर्वदा भवन्ति तर्हि केवलं इन्द्रियैः अस्माकं कार्याणि भवन्ति वा इति चेत् न तर्हि तत्र इन्द्रियाणां पृष्ठतः मनः अपि वर्तते अस्माकं मनः अपि वर्तते यावत्पर्यन्तं मनः संलग्न संलग्नं न भवति इन्द्रियैः सह तावत्पर्यन्तं किमपि कार्यं न भवति यद्यपि अहं पुस्तकं पश्यामि तदा तदापि पुस्तके यदस्ति तस्य ज्ञानं नाम मम न स्यात् यतोहि मम मनः तत्र संलग्नं नास्ति पुस्तकेन ना सह मम मनः तत्र चक्षुषा सह मम मनः संलग्नं नास्ति इति कृत्वा मम ज्ञानं न भवति इति अस्माकं सर्वेषाम् अनुभवः अस्ति अहम् एकमेव वाक्यं पुनः पुनः पुनः पठामि तथापि मम मनसि बोधः न जातः किमर्थम् इति चेत् मम मनः तत्र संलग्नं नास्ति इति कृत्वा मम ज्ञानं न भवति तस् तस्मिन् विषये इति अस्माभिः दृष्टं खलु तर्हि तत्र मनः इति अस्ति चेत् तत्र तत्र मनः इन्द्रियद्वारा कार्यं करोति तर्हि कथं कार्यं करोति मनः इति चेत् इदा इदानीम् अहं पुस्तकं पश्यामि अहं चक्षुषा पुस्तकं पश्यामि तर्हि अत्र तर्हि तत्र किं भवति इति चेत् पुस्तके यद् तन्मा रूपतन्मात्रम् अस्ति तत् तन्मात्र तत् तन्मात्रं तत्र तन्मात्रं नेत्रेण नेत्रेण तत् तन्मात्रं गृह्यते तदनन्तरं तस्मात् नेत्रात् तन्मात्राणि तन्मात्राणि चित्तं स्वीकरोति तत्र मनसः त्रयः भागाः सन्ति महत्तत्त्वम् अहं तत्वं चित्तम् इति त्रयः भागाः सन्ति तत्र अहं तत्वम् इत्यस्य अहम् अस्मि इति भावः अहम् अस्मि इति ज्ञानं तदेव महत्तत्त्वम् अहं तत्त्वम् इत्युक्ते यत् कार्यं करोति यत् कार्यं करोति तत् अहं तत्त्वं द डुवर् ऐ इस् अहं तत्त्वम् अनन्तरं चित्तं चित्तम् अस्ति किमस्ति इति तत्र पुस्तकात् यत् अस्ति तत् तन्मात्रं नेत्राणि तानि तन्मात्राणि नेत्राणि स्वीकुर्वन्ति ततः तानि तन्मात्राणि नेत्रात् तत्र तानि तन्मात्राणि प्राप्नो प्राप्नोति यदा चित्तं तन्मात्राणि प्राप्नोति तदानीं चित्तं तत् पुस्तकस्य आकारं स्वीकरोति इट् इस् लैक् अ मूवी स्क्रीन् अण्ड् इट् टेक्स् द शेप् आफ् द चित्तं पुस्तकस्य आकारं स्वीकरोति यदा चित्तं पुस्तकस्य आकारं स्वीकरोति तदानीम् अहं तत्वं चित्तं पश्यति यदा चित्तं पश्यति अहं तत्त्वं पुस्तकं पुस्तकं पश्यति यतोहि चित्तमेव पुस्तकरूपेण अभवत् इति कृत्वा अहं तत्त्वं चित्तं चित्तं पश्यति इत्युक्ते पुस्तकं पश्यति अतः पुस्तकस्य ज्ञानं पुस्तकस्य ज्ञानं मम भवति एतत् सर्वं कथं भवति इति चेत् पृष्ठतः महत्तत्त्वम् अस्ति अहम् अस्ति अहम् अस्मि इति भावः यावत्पर्यन्तं नास्ति तावत्पर्यन्तम् एतत् सर्वं न भवितुम् अर्हति यतः अहं तत्त्वस्य पृष्ठतः महत्तत्त्वम् इत्यपि अस्ति इति अवगन्तव्यम् अह महत्तत्त्वम् इत्यस्य महत्तत्त्वं विना अस्माभिः किं किमपि ज्ञातुं न शक्नुमः एवम् अहं तत्त्वम् अहं तत्त्वमेव आज्ञां करोति आज्ञां करोति Oh, इदानीं पुस्तकम् अहं पश्यामि इति आज्ञां करोति यदा आज्ञां करोति तदानीं चित्तं तन्मात्राणि पुस्तकतन्मात्राणि स्वीकृत्य इन्द्रियद्वारा स्वीकृत्य तस्य आकारं स्वीकरोति इत्युक्ते शब्दः अस्ति चेत् तत्र चित्तं शब्दरूपेण भवति यदि स्पर्शः अस्ति चेत् चित्तं स्पर्शरूपेण भवति अतः यत्किमपि भवतु रूपरसगन्धस्पर्शः यत्किमपि भवतु चित्तं तद् तदाकारम् एव स्वीकरोति तदानीम् अहं तत्त्वं तस्य अहं तत्त्वस्य ज्ञानं तदानीं भवति यः कोऽपि विषयः भवतु तस्य ज्ञानं भवति तर्हि मनः यावत्पर्यन्तं कार्येण इन्द्रियेण सह संलग्नं न भवति तावत्पर्यन्तम् अस्माकं ज्ञानं न भवति इति अस्माभिः ज्ञातं तर्हि तत्र चित्तम् अहं तत्त्वम् महत्तत्त्वम् इत्येषां मिलित्वा अन्तःकरणम् इति नामकरणम् अस्ति तर्हि तन्मात्रा इत्यपि मया उक्तं तन्मात्रा इत्युक्ते तत्र तत्र वस्तु यत् अस्ति लोके तस्मात् मैक्रोस्कोपिक् फ्राक्षन् आफ् अ वेव् रेडियेटेड् फ्रम् एन् आब्जेक्ट् इस् काल्ड् एस् तन्मात्रा तत्र वस् वस्तुभ्यः यत् वेव् आगच्छति मैक्रोस्कोपिक् फ्राक्षन् आफ़् अ वेव् यद् आगच्छति तस्य ग्रहणम् इन्द्रियेण तस्य ग्रहणं भवति इन्द्रियात् चित्तेन तस्य ग्रहणं भवति इति कृत्वा चित्तं तस्य रूपं धरति यत्किमपि वस्तु अस्ति तस्य रूपं धरति इति एवं री रीत्या अस्माकं एव प्रत्यक्षं जायते रैट् अतः वस्तु यत्किमपि भवतु तत्र शब्दः भवतु रूपः भवतु रूपं भवतु रसः वा भवतु यत्किमपि भवतु तस्य ज्ञानं तु एवं रीत्या एव भवति इति अवगन्तव्यं रैट् अस्तु सर्वम् इदानीम् उक्तम् इति मन्ये अपि च अस्माभिः किमपि किं किम् उक्तमिति किम चेत् तत्र महत्तत्त्वम् इत्यस्य महत्तत्त्वम् अहम् अस्मि इति भावः अस्ति महत्तत्त्वद्वारा अहम् अस्मि इति भावः अस्ति तर्हि महत्तत्त्वस्य पृष्ठतः अन्या अन्या काचित् भवेत् यः शुद्ध अहं शुद्धः अहं भाव शुद्धः अहम् इति यः अस्ति सः अन्यः भवेत् सः एव जीवात्मा तर्हि महत्तत्त्वस्य पृष्ठतः जीवात्मा अस्ति जीवात्मा यावत्पर्यन्तं नास्ति तावत्पर्यन्तम् अहम् अस्मि इति भावः अपि न भवति दि महत् अहं तत्त्वमपि न भवति चित्तमपि न भवति इत्युक्ते दीस् आल् दीस् फार्म्स् महत्तत्त्वम् अहं तत्त्वं चित्तं दीस् आर् आल् दि द फङ्क्षनालिटि आफ् द प्योर् ऐ द शुद्ध ऐ विच् इस् दि जीवात्मा दीस् आर् आल् दोडिफिकेशन् द फङ्क्षनल् फार्मस् आफ् द शुद्धपुरुषा द शुद्ध जीवात्मा सो मया उक्तं यथा तत्र अत्र उदाहरणं यथा एका माता वर्तते तस्याः भिन्नभिन्नकार्याणि भवन्ति भिन्न फङ्क्षनल् फार्म्स् फङ्क्षनल् फार्म्स् भवति सा कदाचित् सा पत्नी भवति तस्य तस्य पत् तस्य पतेः कृते सा पत्युः कृते सा पत्नी भवति कदाचित् सा तत्र पुत्रस्य कृते माता भवति बहिः गत गच्छति चेत् सा वैद्यः वैद्या भवति इत्येवं रीत्या तस्य भिन्नभिन्नकार्याणि भवन्ति एवमेव द जीवात्मा एकः एव तस्य भिन्नभिन्नकार्याणि तस्य भिन्नभिन्न फङ्क्षनल् फार्म्स् जीवात्मा महत्तत्त्वं भवति जीवात्मा एव अहं तत्त्वं भवति जीवात्मा एव चित्तं भवति इति एवं रीत्या आल् वीस् आर् फङ्क्षनल् फ़ार्म्स् द सेम् ऐ अतः वयं ज्ञातुं शक्नुमः अत्र मनसः पृष्ठतः जीवात्मा वर्तते तत्र दे आर् टु सपरेट् एण्टिटीस् द जीवात्मा एण्ड् द मैण्ड् आर् इवन् दो दे आर् टु सपरेट् एण्टिटीस् बर् दे आर् वेरि मच इण्टिग्रेटेड् यु केन् सपरेट् देम् रैट् इन् द सेन्स् यु यु केनाट् दे आर् वेरि वेरि इण्टिग्रेटेड् दे आर् वेरि रिलेटेड् टु इच् अदर् रैट् सो इट् इस् वेरि डिफिकल्ट् टु सपरेट् देम् यथा तत्र प्रकृतिपुरुषः द्वयोः सम्बन्धः अविनाभावसम्बन्धः अस्ति प्रकृतिपुरुषयोः तथैव आत्मामनसोः तादृशविनाभावसम्बन्धः अस्तिकल् टु सपरेट् देम् दे आर् वेरि वेरि कैण्ड् आफ् इण्टिग्रेटेड् बट् दे आर् टु सेपरेट् एण्टिटीस् वी हाव् टु कन्सिडर् देम् एस् टु सपरेट् एण्टिटीस् इवेन् दो दे आर् इण्टिग्रेटेड् रैट् ओके तावत् उक्तमासीत् इदानीं किञ्चित् अग्रे गच्छामः मम स्क्रीन् दृश्यते वा न भगिनि न दृश्यते वा अस्तु इदानीं शेर् करोमि तर्हि आत्मा और् यूनिट् कान्शियस्नेस् एण्ड् दि मैण्ड् अ टु सेपरेट् एण्टिटीस् अतः आरभ्य पठामः ओके सरलभगिनी भवत्येव पठति वा यद्यपि आत्मा अनुचैतन्यम् वा मनश्च द्वे पृथक् सतेः स्तः तथापि द्वयोः परस्परम् सम्बन्धः स्यात् आदौ प्रतीयते यत् अहम् मम अस्तित्वम् जानामि इति अनन्तरम् यत् अहम् मम अस्तित्वस्य निरूपणम् करोति तदेव अहम् माम् कार्यार्थम् प्रेरयति मनसः अंशः चित्तम् इति यत् आख्यातम् तत् तन्मात्रद्वारा पुस्तकस्य रूपम् धरति अतः अहं पुस्तकं द्रष्टुं शक्नोमि यत् अहं माम चैतन्यम् ददाति अथवा यत् अहं साक्षी अस्ति मम मनसः अस्ति तत्त्वस्य अपि च तत्र अहम् अस्मि इति भावप्रदस्य तदेव आत्मा अथवा अनुचैतन्यम् अहम् अस्मि इति अस्तित्वस्य बोधम् यत् अहं जनयति अपि च आत्मनः अस्ति प्रमाणीकरोति तत् अहं महत्तत्त्वम् अस्ति अस्तित्वम् अस्तित्वम् यः आत्मनः अस्तित्वम् प्रमाणीकरोति तत् अहं महत्तत्त्वं वा बुद्धितत्त्वम् इति उच्यते यत् अहं कार्यं करोति अथवा पुस्तकं पश्यति तत तत् अहं तत्त्वम् अपि यः अपि च मनसः अंशः यत् अहं चित्तम् इति उच्यते तत् पुस्तकस्य रूपं धृत्वा धृत्वा धृत्वा अहं तत्त्वं पुस्तकं द्रष्टुं समर्थयति अर्थात् एकमेव अहं भिन्नेषु कार्याणि कथं सम्भवन्ति इति इतोपि विवरणीयम् अहम् अस्मि इति अर्थात् अर्थात् एकमेव अहं भिन्नेषु स्तरेषु भिन्नं कार्यं करोति इदानीम् एकस्य एव अहम् इत्यस्य एतानि भिन्नानि कार्याणि कथं सम्भवन्ति इति इतोपि विवरणीयम् अहम् अस्मि इति वाक्यम् अहम् इति साक्षीसतायाः अस्तित, अस्तित्वस्य सानिध्यं पूर्वं कल्पयति इयं साक्षी सता आत्मा अथवा अनुचैतन्यम् अस्ति तस्य च आत्मनः उपस्थितिः च एकस्य प्रत्येकम् कर्मणा प्रदर्श्यमाणेन अस्तित्वभावेन स्थापिता भवति परन्तु आत्मनः अपेक्षया अहम् अस्मि इति प्रतिज्ञा भिन्ना अस्ती दृश्य अहम अस्म आत्मन अथवा अणुचैतन्य उपस्थित अपेक्ष सेवना चैतन्यम कवल चैतन्यम है चैतन्यम विना अस्तिव न भविम अर् चैतन्य विना अस्ति नवती अहम साक्षी किं भवति अतः चैतन्यम् अत्य अति आवश्यकम् महत्तत्त्वस्य बुद्धितत्वस्य वा भावं निर्मातुं स्पष्टीकरणीयम् चेत् आत्मनः अनुचैतन्यस्य वा उपस्थितिं विना महत्तत्त्वस्य अथवा बुद्धितस्य अस्ति न भवितुं भवितुम् अस्ति अस्ति अस्तित्वम् अस्तित्वम् अस्तित्वम् अस्तित्वम् अस्तित्वं न भवितुम् अस्ति अस्ति हा हा इति अस्ति अस्ति अस्तित्वम् इत्युक्ते इस्नेस् इस्नेस् एक्सिस्टेन्स् Uh, uh, mm. uh, अस्ति जत जत जत है है त्वं साधु अस्तु पञ्च वदामि आमाम् अथा वयं दृष्टवन्तः अस्माकं भागं द्वयम् अस्ति एक अस्ति चैतन्य अस्ति यत् आत्मा वयं वदामः तत् चैतन्यं ददाति प्रकृतिं प्रकृतिः यत् अन्तःकरणं वयं वदामः यत् भागत्रयं यथा भवती उक्तवती महत्तत्त्वं अहं तत्त्वम् अपि चित्तम् इति त्रयभाग तेषां कथं चैतन्यस्य चैतन्यस्य या सत्ता अस्ति कथं प्रकृत्यां प्रति अपि गच्छति इति अस्य अस्ति विवरणं चै आत्मा यत् अनुचैतन्यमस्ति सूक्ष्म सूक्ष्मतमम् अस्ति आत्मा इति अनुचैतन्यम् इति वदामः वा मनश्च द्वे पृथक् स्थे दा, इदानीम् उक्तवती द्वयोः परस्परं सम्बन्धस्य तु परस्परं कीदृशसम्बन्धः अस्ति इति अस्माकं द्रोणमहोदय न्यायशास्त्रे अपि एतत् पाठमस्ति भगिनि तु सः उक्तवान् इति भिन्नभिन्ना वादाः सन्ति यथा न्यायशास्त्रे आरम्भवाद इति वदामः वेदान्ते वि विवाद विवृ किमस्ति विवृत्तं न या विवृत्तं भवति अपि साङ्ख्यशास्त्री इति अस्ति भवती परिभा पठामि आदौ पठयति अहं मम आदौ वयं जाना अहं जानामि इति अहं तत्त्वं यत् अस्ति मम अस्तित्वम् अस्ति तु कथम् अहम् इति यत् तस्य प्रतीतिः भवति अहं जानामि इति यत् जा प्रतीति आगच्छति तत् भवती यत् अहं भगिनी प्रथमतया क्षम्यतां प्रथमतया महत्तत्त्वम् अस्ति तत्र महत्तत्त्वरा अहम् अस्मि इति भावः जायते तदेव तेन मम अस्तित्वम् अहं जानामि अहं किन्तु इदानीमहम् अहङ्कार इति अहं करोमि तत् तस्य पूर्वं यत् महत्तत्त्वमस्ति तत् अहङ्कारम् इति निरूपयति तत् अहं जानामि आगच्छति अत्र मम न प्रथमतया प्रथमतया अहं जानामि इति अस्ति तदनन्तरं तत्र अहङ्कारः आगच्छति प्रथमतया अहं जानामि इति भावः अहम् अस्मि अहम् अस्मि अहम् अस्मि इति भावः सर्वदा तस्य अनन्तरम् अहङ्कारः आयाति अहङ्कारः कदा आयाति यदा तत्र नामकरणं भवति रामः श्यामः गोविन्दः कृष्णः इति यदा नामकरणं भवति तदानीं तत्र अहङ्कारः अपि आयाति तदहङ्कारः एव तत्र तत्र अहं तत्त्वम् इति वदामः आदौ <laughs> प्रतीतिः <laughs> अस्ति <laughs> अहम् अस्मि अस्तित्वम् यत् अस्ति अस्तित्वं तत् महत्तत्त्वस्य अस्ति महत्तत्त्व कथं इति प्राप्नोति अहम् अस्मि इति तत् भवति अणुचैतन्यतः इति आगच्छति तदनन्तरं यथा इदानीं भवती उक्तवती महत्तत्त्वात् इति अहङ्कार इति अहम् अहं तत्त्वम् इति भवति तत् तदनन्तरम् तत्त्वं यदि आगच्छति तत्र जब चित्तमस्ति चित्तम् या कोऽपि रूपं या इन्द्रियाणि तस्य आकारः आगच्छति सो अहङ्कार इति वदति अहं पश्यामि अहं शृणोमि किमपि अहं शृणोमि इति अस्ति चित्तम् इति यत् अस्ति तत् कथं कार्यं करोति चित्तमिति तन्मात्रा द्वारा यथा वयम् उदाहरणं स्वीकुर्मः पुस्तकम् एकं पुस्तकम् अस्ति यदि पुस्तकमिति विषयः अस्ति तस्य परितः तन्मात्रा इति स्पन्दं रूपेण इत अस्माकं गोचरे गच्छन्ति तदनन्तरम् इन्द्रियाणि रूपेन्द्रिय इति चक्षु इन्द्रियाणि इति रूपस्य तन्मात्रा इति गृही गृह गृह्णाति यदि तन्मात्रा इन्द्रियाणि गृह्णाति तदनन्तरं तन्मात्रा चित्तं प्रति तस्य आकारं प्रदर्शयति यदि चित्त चितसि आकार भवति तदानीम् अहम् तत्त्वम् इति वदति अहं पुस्तकं जानामि पुस्तकं पश्यामि इति तदनन्तरं यदि पुस्तकं पश्यति अपि पुस्तकम् उत्थाय पठितुम् इच्छति पुनः तन्मात्रा चित्त चित्तसः गोचरं लता अस्माकं हस्तौ प्रति गच्छति कर्मेन्द्रियाणि अस्ति इदानीं कर्मेन्द्रियाणि इति तन्मात्रा चित्त चित्तसः गृह्णाति अपि पुस्तकं प्रति ग उत्थ्य उथा, उथा, तो कार्यम कार्य विषया इंद्रिया साधना साधना इंद्रिया तन्त्र गृह ग्री, गृहत चित चित आकार कवनतरम अहम तत्व अहम् अहं जानामि तत तत् अहं तत्त्वं जानामि इति भवति कारणके अहम् अस्मि इति महत्तत्त्वम् अस्ति महत्तत्त्वम् अहम् अस्मि कथं जाना तत जानाति तत् अति अणुचैतन्य यत् आत्मा अस्ति तस्य सन्निधम् अस्ति कारणके वयं जानीमः आत्मा प्रतिबिम्बति शुद्ध इति शुद्ध अन्तःकरणे तु तत्र इति अहम् अस्मि इति महत्तत्त्वम् अस्य उत्पानम् उत्पत्तिः भवति इति अर्था अहम् एव अस्ति आत्मा अपि अहम् अस्ति अहं तत्त्वमपि अहम् अस्ति कथम् एकमेव अहं भिन्न भिन्न कार्याणि करोति प्रमाणी भवति इति अहं प्रथमं अहम् अस्तित्वम् आत्मा ददाति महत्तत्त्वेति अहं जनयति इति वयं वदामः तस्य प्रमाणे भवति अहं तत्त्वे अहं यत् अस्मि तस्य यत् कापि विषयः अहङ्कार यथा भवती उक्तवती राम नाम आगच्छति तत्र तत् राम इति वदति अहं जानामि अहम् इति पठितुमिच्छामि अहम् इति किं करोमि इति भिन्नानि कार्याणि यत् भवन्ति तत् ज्ञानेन्द्रिय अपि भवन्ति तदनन्तरम् चित्त अपि मध्ये आगच्छति तत्र इन्द्रियाणि चित्त याव यावत्पर्यन्तं चित्त आकारः न भवति अहं तत्त्वं तस्य सन्नग्न सन्निधौ या तस्य सन्नग्न भवति तावत् अहम् आकारं भवति किन्तु मम मनः नास्ति तत्र चित्तं न भवति तत्र Uh, वस्तु समीपम् अस्ति किन्तु वयं न पश्यामः इति या वयं यदि पुस्तकं पठितुं लग्न सन्न लग्न अस्मा कोऽपि अह अस्माभिः आहूय आहूय आह्वय आहूयते <sensors> न शृणुमः कारणकी तत् इन्द्रिय तत् श्रोतुम् इन्द्रिय न चित्ते चित्तस्य न सद् संलग्नं भवति तदानीम् आमां समीचीनं भगिनी सम्यक् इति एव विषयः अस्ति तत्र इत्युक्ते सर्वदा अस्माकं यदा वयं सम्भाषणं कुर्मः चेदपि वयं वदामः मम मनः इति वयं वदामः मम मनः तर्हि मम इति मम इति का का मम इत्यनेन किं सङ्के कस्य सङ्केतः अस्ति मम इत्यनेन इति चेत् मम इति या या साक्षिसत्ता वर्तते जीवात्मा तस्य एव सङ्केतः अस्ति मम इत्यनेन तर्हि जीवात्मा अस्ति इति वयं ज्ञातुं शक्नुमः मम मनः इति वयं वदामः चेत् मम इत्यनेन अन्यसत्ता अस्ति मम इत्युक्ते मम इति कदा वयं वदामः यत्र इत्युक्ते तत्र कश्चन सम्बन्धः भवेत् खलु षष्ठी विभक्तिः अस्ति खलु मम इत्यत्र तर्हि कश्चन सम्बन्धः भवेत् मम मनः इति वयं वदामः चेत् तत्र स्वस्वामीभावसम्बन्धः वर्तते मम मनः अहं स्वामी अस्मि मनः मम स्वम् अस्ति तर्हि स्वामी स्वामी कः इति चेत् जीवात्मा एव स्वामी तत्र स्वं स्वं कः इति चेत् मनः स्वम् अस्ति तर्हि मनसः त्रयः भावा भागाः सन्ति अहम् इति यदा तत्र जीवात्मा अहम् अस्ति शुद्ध अहम् अस्मि अहम् अस्ति यदा शुद्धः अहम् अस्ति तदानीं तत्र अग्रे अहम् अस्मि इति भावः अयति अहम् अस्मि अहं जानामि अहम् अस्मि इति यः भावः अस्ति अहं जानामि यत अहम् अस्मि इति यत् जागरु जागरूकता भवति अस्माकं तदेव महत्तत्त्वं तद् महत्तत्त्वं जीवात्मनः पृथक् अस्ति तर्हि न केवलम् अहम् अपि अहं जानामि यत् अहम् अस्ति इति <laughs> इति अस्ति इति कृत्वा एव जनाः सर्वे वयं सर्वदा वदामः मम वनः मम वनः इत्येवं रीत्या वयं वदामः खलु तर्हि तस्मात् जीवात्मनः पृथक् अस्ति अहम् अस्मि इति भावः जीवात्मनि तु किमपि तत्र भावः किमपि नास्ति किमपि किमपि नास्ति शुद्ध अहं तत्र किमपि गुणः न गुणः तस्मिन् वर्तते यदा गुणः आयाति यदा भावः आयाति अहम् अस्मि इति भावः यदा आयाति यदा गुणः आयाति तदानीं तत्र महत्तत्त्वम् इति वदामः तस्मात् किमपि अहं कर्तुम् इच्छामि किमपि कार्यमहं कर्तुम् इच्छामि तदानीं तत्र अहं तत्वम् अहङ्कारः आयाति यत्किमपि अहं कर्तुम् इच्छामि तदानीम् अहङ्कारः आयाति अहं तत्वम् आयाति अहं तत्त्वं महत्तत्त्वात् पृथक् अस्ति यदा यदा अहं किमपि कार्यं कर्तुम् इच्छामि तदानीम् अग्रिमः भागः आयाति चित्तमिति भागः यः साक्षात् वस्तुनः रूपं धरति इति कृत्वा वयं द्रष्टुं शक्नुमः जीवात्मा पृथक् अस्ति मनः इति पृथक् अस्ति मनः मनसः त्रयः भागाः सन्ति इत्युक्ते तत्र प्रायेणजनानां तत्र साङ्कर्यं भवति कन्फ्यूशन् भवति ओ आ जीवात्मा पृथक् वा मनः पृथक् वा सर्वदा मनः एव जीवात्मा इति जनाः चिन्तयन्ति परन्तु जीवात्मा पृथक् अस्ति मनः पृथक् अस्ति यद्यपि द्वयोः सम्बन्धः तु अस्ति सम्बन्धः तु अस्ति तर्हि अत्र चित्तस्य बहु सामर्थ्यं वर्तते तद् अहं तत्त्वेन यत् कार्यं निर्दिष्टं तत्कार्यं चित्तं करोति चित्तं करोति तर्हि यत्किमपि चित्तं यस्य कस्यापि रूपं चित्तं धरति तस्य रूपम् अहङ्कार अहङ्कारः अहं तत्त्वं तत्र पश्यति अतः अहम् अहं तत्त्वं डुयर् ऐ इति वयं वदामः चित्तं दन् ऐ दरिसल्ट् रिजल्ट् आफ् द एक्षन् इस् द यत्किमपि वयं द्रष्टुमिच्छामः श्रोतुमिच्छामः तद् रूपं चित्तं गृह्णाति इति कृत्वा वयं द्रष्टुं शक्नुमः एकः एव जीवात्मा तस्य एव पृथक् पृथक् भिन्नभिन्न कार्याणि सन्ति भिन्नरूपाणि सन्ति महत्तत्त्वमहान्तत्वं चित्तम् इति परन्तु एतानि सर्वाणि महान्तत्त्वं चित्तं महत्तत्त्वम् एतानि सर्वाणि कस्य कस्य कम् आधारीकृत्य वर्तते इति चेत् जीवात्मानम् आधारीकृत्य एव एते भागाः वर्तन्ते इति अस्माभिः अवगन्तव्यम् अस्तु इदानीं किञ्चित् अग्रे वयं गच्छामः अत्र कोऽपि प्रश्नः अस्ति वा अतः जीवात्मा एव तत्र साक्षिसत्ता अस्ति साक्षिसत्ता जीवात्मा साक्षिसत्ता सर्वस्य साक्षिसत्ता अहं तत्त्वं महत्तत्त्वं महत्तत्त्वम् अहं तत्त्वस्य साक्षिसत्ता अहं तत्त्वं चित्तस्य साक्षिसत्त्वा इति कृत्वा वयं द्रष्टुं शक्नुमः चित्तः द लोयेस्ट् लेवेल् तस्य साक्षिसत्ता अस्ति अहं तत्त्वम् अहं तत्त्वस्य साक्षिसत्ता अस्ति महत्तत्त्वं महत्तत्त्वस्य साक्षिसत्ता अस्ति जीवात्मा जीवात्मा सर्वस्य साक्षिसत्ता अस्ति सर्वं पश्यति किमपि न करोति किमपि कर्तुं न शक्नोति एवमेव अस्ति तस्य न कोऽपि गुणः तस्य न कोऽपि भावः अस्तित्वस्य भावः अपि तस्मिन् नास्ति अहम् इत्यस्य यदा अस्तित्वम् इति वयं वदामः तदानीं तत्रापि भावः आयाति इति कृत्वा अहं शुद्ध अहम् इत्यस्य अस्तित्वस्य भावः नास्ति अस्तु तर्हि इदानीं किञ्चित् अग्रे गच्छामः तत्र किं विजयाभगिनी पठितुमिच्छति वा आं मम तु ओके okay. hmm. हा पठतु परन्तु परन्तु साक्षि सत्ता अहम् इति शुद्धभावना च एकश्चैव अहम् चित् इत्यस्य द्वे भिन्ने कार्यात्मके रूपे स्तः वस्तुतः मम अस्तित्वस्य साक्षी यत् अहमस्ति अहमस्ति वा अहमस्मि मा महोदय अहम् अस्ति अहम् इति तत्र इट् इस् नाट् ऐं नाट् टाकिङ्ग् अबौट् अहम् अस्मि ऐं टाकिङ्ग् अबौट् अहम् एतत् अहम् अस्ति तदेव अहम् अस्मि इत्यस्मिन् अहम् इति रूपेण प्रकटयति यत् अहं साक्षी अस्ति तदेव अनुचैतन्यं वा आत्मा अस्ति तदेव च महत्तत्त्वेन बुद्धितत्वेन रूपेण प्रकटयि प्रकटयित्वा स्वस्य अस्तित्वं प्रतिष्ठापयति साक्षी सत्ता अथवा अनुचैतन्यमेव यदा अहमस्मि इत्यस्मिन् अहम् इत्यस्य कार्यं स्वीकरोति तदानीं तदेव महत्तत्त्वं बुद्धितत्वं वा इति नाम्ना उच्यते एवम् अनुचैतन्यं न केवलं चैतन्यमस्ति तद् गुणप्रभावेन भिन्नकार्याणां द्वारा स्वं प्रकटयति एषः गुणः चैतन्यं नास्ति यतः अन्यथा चैतन्यस्य महत्तत्वरूपेण प्रकटीकरणस्य प्रकटीकरणस्य अहमस्मि इत्यस्य अहम् इति रूपेण अभिव्यक्तेः च आवश्यकता न स्यात् अतः चैतन्यं च गुणाः द्वे पृथक् सप्ते स्तः यतः अयं गुणः चैतन्यात् भिन्नः सः कस्मिञ्चित् प्राप्तः स्यात् इमे अतिरिच्य अन्यसत्ता स्यात् आत्मानम् आत्मानं, आत्मानं वितम कर्तुं सा महत्तत्वरूपेण प्रकटयितुं शक्नोति या सत्ता आत्मानं गुणान्वितं करोति सा सत्ता प्रकृतिः इति उच्यते अर्थात् प्रकृत्या गुणान्वितः आत्मान् महत्तत्वरूपेण अभिव्यक्तः भवति अहमस्मि इति भावनां च प्राप्नोति अत्र अहमस्मि इत्यस्मिन् अहमिति रूपेण प्रकटयति अत्र किम् अस्ति अहम् अस्मि परन्तु साक्षिसत्ता अत्र किम् अस्ति चेत् क्षमिता अहति अत्र साक्षिसत्ता साक्षी अत्र ब्रह्मत्वम् एव अत्र सूचयति आत्मा अस्ति अत्र साक्षीरूपेण सर्वं परमात्मा एव पश्यति इदानीमत्र साक्षिसत्ता अहम् इति शुद्धभावना च एकस्य एव अहम् इत्यस्य द्वे भिन्ने कार्यात्म कार्यात्मके रूपे स्तः अहमपि अस्ति अनन्तरम् अत्र साक्षी अपि अस्ति अतः तत्र भिन्नरूपेण पुनः वदतु पुनः वदतु भवत्या न साक्षि सप्ता अहम् इति शुद्धभावना च अगम अहम् इत्यस्य द्वे भिन्ने कार्यात्मके रूपे स्तः अत्र पदार्थद्वयं किमस्ति पदार्थद्वयं किमस्ति कयोः तत्र तुलना साक्षि सत्ता अनन्तरम् अहम् इति न साक्षिसत्ता अनन्तरम् अहम् इति शुद्धभावना एतत् एण्टिटिण्ड् दियो अपियर् टु बि दि डिफ्रेण्ट् फङ्क्शनल् फार्म्स् आफ़् द सेम् ऐ शुद्धभावना साक्षिसत्ता अनन्तरं शुद्धभावना च एकस्यैव अहम् इत्यस्य द्वे भिन्ने अत्र कार्यात्मकः रूपे स्तः साक्षिसत्ता अनन्तरं शुद्धभावना वस्तुतः मम अस्तित्वस्य साक्षी यत् अहम् अस्ति तदेव अहमस्मि इत्यस्मिन् अहम् इति रूपेण प्रकटयति अत्र वस्तुतः पश्यामि चेत् अत्र अस्तित्वम् अहमस्मि इति अस्तित्वं कुत्र भवति चेत् अत्र अहमस्ति तदेव अहमस्मि इत्यस्मिन् एव अत्र अहमस्मि इति रूपेण प्रकटयति वस्तुतः अत्र पश्यमि चेत् अस्तित्वं पुनः अस्तित्वं कुत्र भवति अस्तित्वं कुत्र भवति चेत् अहमस्मि इत्यस्मिन् एव अस्तित्वम् अस्ति खलु महोदय न न पश्यतु महत्तत्त्वम् महत्तत्त्वम् इत्यत्र किं वयं वदामः अहम् अस्मि इति भावः इति वदामः खलु अहम् अस्मि तत्र अहम् इति यः भागः अस्ति सः एव शुद्धः पुरुषः अहम् अस्मि इति इत्युक्ते पश्यतु अत्र पश्यतु इन्फाक्ट् दि ऐ दि ऐ देट् विट्नेस् इस् मै एक्सिस्टेन्स् आल्सो मेनिफेस्ट् इट् सेल्फ् एस् दि ऐ आफ् ऐ एक्सिस्ट् सो महत्तत्त्वम् अहम् अस्मि इति भावः इति वदामः सर्वदात्मकम् अहम् अहम् अस्मि अहम् अस्मि अहम् अस्मि अस्मि इति भावः अस्ति खलु इति भावः तस्मिन् भावे यः अहम् इति भागः अस्ति सः एव शुद्धः पुरुषः सः एव साक्षी सत्तां वदतु अतः एव अत्र तदेव अनुचैतन्यम् शुद्धपुरुषः अहं शुद्ध अहम् इति यदस्ति तदेव साक्षिसत्ता तदेव अनुचैतन्यम् अथवा जीवात्मा अस्तु भवति तदेव च महत्तत्त्वेन बुद्धितत्त्वेन वा रूपेण प्रकटयित्वा स्वस्य अस्तित्वं प्रतिपा प्रतिष्ठापयति तदेव अहम् इति यद् जीवात्मा अस्ति अहमिति यद् जीवात्मा अणुचैतन्यम् अस्ति तदेव इदानीं महत्तत्त्वरूपेण प्रकटयित्वा स्वस्य अस्तित्वं प्रतिष्ठापयति इत्युक्ते अणुचैतन्यमेव अहं साक्षिसत्ता अस्ति दट् इट्सेल्फ् टेक्स् द फङ्क्षनल् फार्म् आफ् महत्तत्त्वं तदेव कार्यात्मकरूपेण महत्तत्त्वरूपेण रूपं प्राप् इति कृत्वा अस्माकम् अहम् अस्मि इति भावः आयाति मदर् रोल् आफ़् अ वैफ् सो शी इस् अ लेडी शी इस् अडी फस्ट् आफ़् आल् शी इस् अडि अण्ड् देन् वेन् शी टेक्स् दोल् आफ् अ वैफ् देन् इट् इस् अ सेम् लेडी हु टेकन् दार्म् आफ़् वैफ् इन् द सेम् मेनर् इट् इस् देम् जीवात्मा इस् इस् दार्म् आफ़् दि महत्तत्त्वम् इट् इस् डिफ़रे फङ्क्षनल् फार्म् साक्षिसत्ता अथवा अनुचैतन्यमेव यदा अहमस्मि इत्यस्मिन् अहमित्यस्य कार्यं स्वीकरोति तदानीं तदेव महत्तत्वं बुद्धितत्वं वा इति नाम्ना उच्यते इदानीं साक्षिसत्ता न तु अत्र अनुचैतन्यमेव अहमस्मि इति सूचितम् अत्र स्पष्टीकरणार्थम् अत्र अहमस्मि इति किं शुद्धभावनाय शुद्धभावनया अत्र दत् अत्र सूचितम् इत्यस्य कार्यं स्वीकरोति तदानीं तदैव महत्तत्त्वं बुद्धितत्वं वा इति नाम्ना ज्ञायते अत्र साक्षिसत्ता यत्र भवति न अत्र अनुचैतन्यं भवति अहमस्मि इत्यस् इत्यस्य विषये महतत्त्वमपि अनन्तरं बुद्धितत्वमपि नाम्ना एव अत्र ज्ञायते महत्तत्त्वं बुद्धितत्वम् इति इत्यस्य एकस्य एव नाम अस्ति महत्तत्त्वम् अथवा बुद्धितत्वं तु वयं तु महत्तत्त्वम् इत्येव वदामः अत्र अस्तु एवम् अनुचैतन्यं न केवलं चैतन्यमस्ति तद् गुणप्रभावेण भिन्नकार्याणां द्वारा स्वं प्रकट प्रकटयति अत्र चैतन्यम् अत्र केवलं चैतन्यं सर्वत्र अस्ति परन्तु गुणभावेन यत्र यत्र पृथक्तया अत्र गुण इदानीमेव भवत्या उक्तम् अत्र माता अस्ति माता सर्वत्र गुणविशेषेण अत्र भिन्नत्वं भवितुम् अर्हन् एव भिन्नकार्याणां स्वं रूपम् अत्र प्रकटयति चैतन्यम् परन्तु भिन्नरूपेण अत्र प्रकटनं भवति इति एषः गुणः चैतन्यं नास्ति तत् गुणः चैतन्यं नास्ति यतः एतत् शुद्धभावना इति पूर्वं वयं दृष्टवन्तः इदानीम् अत्र चैतन्यं भिन्नकार्याणां द्वारा स्वं प्रकटयति अतः एषः गुणः चैतन्यं नास्ति यतः अन्यथा चैतन्यस्य महत्तत्वरूपेण प्रकटीकरणस्य प्रकटीकरणस्य अहमस्मि इत्यस्य अहम् इति रूपेण अभिव्यक्तेः च आवश्यकता न अत्र अहम् इति व्यक्तरूपेण अभिव्यक्तये इति व्यक्तरूपेण एव खलु महोदय अत्र अति उपसर्गपूर्वकः व्यक्तरूपम् इत्युक्ते इत्युक्ते तत्र गुणः यदा गुणः योजितः भवति तदानीं तदेव अहं महत्तत्वरूपेण प्रकट प्रकटीकरोति यदा गुणः योजितः भवति यदा प्रकृते प्रकृतेः गुणः योजितः भवति तदानीं चैतन्यम् एव शुद्धपुरुषः एव म तत्त्वरूपेण प्रकटीकरोति तदानीम् अहम् अस्मि इति भावः तत्र आयाति नो चेत् अहम् अस्मि इति भावः अपि न आयाति गुणः नास्ति चेत् तत्र त्रिगुणाः त्रि त्रिगुणाः न सन्ति चेत् तर्हि शुद्धपुरुषः एव भवति इदानीं किमपि नास्ति सृष्टिः अपि नास्ति यदा तत्र गुणाः योजिताः भवन्ति तत्र गुणाः प्रभाविताः भवन्ति पुरुषस्य उपरि तदानीं तत्र शुद्धपुरुषः एव महत्तत्त्वरूपेण प्रकटीकरोति तदानीम् अहमस्मि इति भावः आयाति अतः चैतन्यं च गुणाः द्वे पृथक् सप्तैः स्तः अतः तत्र पृथक् रूपेण व वयं कर्तुं शक्यते एव चैतन्यम् इति भिन्नरूपेण अनत गुणाः इति सत्त्वरजतमः इति गुणाः भिन्ने अत्र चैतन्यम् अनन्तरं गुणाः देव् पृथक् पृथक् सत्यैस्तः एव अत्र यतः अयं गुणः चैतन्यात् भिन्नः समीचीनतया अत्र दत्तमेव गुणः चैतन्यात् भिन्नः एव अत्र परिवर्तनं भवति भिन्नभिन्नरूपेण मनुष्येषु यत्र त्रिगुणात्मि गुणात्मकाः नास्ति तत् शुद्धरूपेण शुद्धभावना अत्र भवति एव इदानीम् अत्र सः कस्मिञ्चित् प्रातः स्यात् न सन्ति चेत् शुद्धभावना इति मा वदतु भावना नास्ति शुद्धपुरुषः भावना शुद्ध इति यदा वदति भावना इति वदति चेत् तद्गुणः एव शुद्ध पुरुषः शुद्धपुरुषः एव अतः चैतन्यम् इदानीम् अत्र अयं गुणः चैतन्यात् भिन्नः इदानीं दृष्टवन्तः इदानीं आ, इमे अतिरिच्य अन्यत् सत्ता स्यात् आत्मानं गुणान्वितं कर्तुं सा महत्तत्त्वरूपेण प्रकटयितुं शक्नोति आत्मानं गुणान्वितम् एव गुणस् पृथक्तया वयं अत्र कर्तुं शक्यते चेत् आत्मानं गुणान्वितम् एव तिष्ठति महतत्त्वरूपेण प्रकटयितुं शक्नोति अहम् अस्मि इति महतत्त्वरूपेण आत्मानं गुणान्वितं गुणान् संयुक्तः आत्मानम् इति वक्तुं शक्नु शक्नुमः या सत्ता आत्मानं गुणान्वितं करोति सा सत्ता प्रकृतिः इति विच्यते प्रकृतिः इत्युक्ते अत्र स्वरूपेण किमस्ति अत्र प्रकृतिः इति स्वभाव स्वभावम् इति अत्र स्वीकुर्मः आत्मानं गुणान्वितं सर्वथा भवति एव तत् सत्ता किं भवति चेत् प्रकृतिः इति वयं वक्तुं शक्नुमः अर्थात् प्रकृत्या गुणान्वितः आत्मा महतत्वरूपेण अभिव्यक्तः भवति <laughs> अहमस्मि इति भावना भावनां च प्राप्नोति <laughs> यत्र आत्मानं गुणान्वितः अस्ति तत् प्रकृतिः इति वयं स्वीकुर्मः तत् प्रकृत्या गुणान्वितः भवति इति आत्मा महतत्त्वरूपेण अहमस्मि इति वक्तुं शक्नुमः एतदेव तत्र दत्तं खलु महोदय आत्मानं गुणान्वितः इति hmm. न तु सः शुद्धपुरुषः एव इत्युक्ते अत्र किं समीचीनं भगिनी अत्र किम् उक्तमिति चेत् यः यः जी, जीवात्मा अस्ति सः एव शुद्धः शुद्ध अहं शुद्ध जीवात्मा शुद्ध अपि च महत्तत्त्वम् अहम् अस्मि इति भावः अहमस्मि इति भावः जीवात्मनः एव पृथक् कार्यात्मकरूपम् अस्ति तर्हि अहम् इति यदस्ति अहम् इति शुद्धपुरुषः सः साक्षीसत्ता सः एव अहमस्मि इति रूपेण प्रकटीकरोति सः एव महत्तत्त्वरूपेण प्रकटीकरोति प्रकटीकृत्वा स्वस्य अस्तित्वमपि प्रतिष्ठापयति स्वस्य अस्ति अस्तित्वमपि स्थापयति यदा तत्र यदा यदा शुद्धपुरुषस्य उपरि प्रकृतेः गुणाः गुणः यदा प्रकृतेः गुणः कार्यं करो कार्यं करोति तदानीं गुणः कार्यं कुर्वन्ति तदानीं तत्र किं भवति इति चेत् शुद्धपुरुषः एव भिन्नकार्यात्मकरूपं प्राप्नोति तत् कार्यात्मरूप्यात्म कार्यात्मकरूपम् अस्ति महत्तत्त्वं पुनः यदा प्रकृतेः गुणः पुरुषस्य उपरि कार्यं कुर्वन्ति तदानीं महत्तत्त्वम् अहं तत्त्वरूपेण प्रकटीकरोति पुनः गुणाः यदा कार्यं करोति शुद्धपुरुषस्य उपरि तदानीम् अहं तत्त्वं चित्तरूपेण कार्यं करोति इति कृत्वा वयं द्रष्टुं शक्नुमः पुरुषः भिन्नः गुणाः भिन्नाः पुरुषः भिन्नः गुणाः भिन्नाः यदा अयम् एते गुणाः प्रकृतेः गुणाः सन्ति पुरुषः भिन्नः यदा प्रकृतेः गुणाः कार्यं प्रकृतेः गुणाः कार्यं कुर्वन्ति तदानीं पुरुषः एव भिन्नभिन्नकार्यात्मकरूपाणि पुरुषः प्राप्नोति पुरुषः भिन्नभिन्नरूपाणि पुरुषः एव प्राप्नोति ओके इति अत्र अत्र विषयः अस्ति इति कृत्वा अत्र प्रकृतिः प्रकृतिः इति का इति अस्माभिः इदानीम् अवगन्तव्यम् अग्रे प्रकृतिः प्रकृतिः इति भिन्नसत्ता अस्ति पुरुषः इति भिन्नसत्ता अस्ति इति वयं अवगन्तुं शक्नुमः कोऽपि प्रश्नः अस्ति वा एतावता अग्रिमपरिच्छेदे पुरुषः पुरुषः कः प्रकृतिः का इति अत्र अग्रे उच्यते प्रकृतिः का इति अग्रे उच्यते एतावता स्पष्टमस्ति वा कोऽपि प्रश्नः अस्ति वा नास्ति महोदय प्रकृतिविषये प्रकृ प्रकृतिः इति इत्युक्ते अत्र अग्रिमपरिचयः इत्युक्ते किम परिचय उच्यते तर्हि इदानीम् एतावता किम् अवगतम् इति चेत् पुरुषः शुद्धपुरुषः इति एकः अस्ति अनन्तरं मनः इति एकः एकः भागः मनः इति अस्ति अनन्तरं प्रकृतिः इत्यपि अस्ति प्रकृतेः एव सन्ति तर्हि इत्युक्ते अत्र अत्र अस्माकम् अवगमनार्थम् इदम् अवगन्तुं शक्नुमः इत्युक्ते इफ़् इफ् देर् इस् लेट् इस् ओशन् आफ़् कान्शियस्नेस् ए ओषन् आफ़् कान्शियस्नेस् in that ocean of consciousness there is a cup floating right there is a cup floating and that cup is filled with water so let us this this ocean this ocean this ocean is actually the nirguna purusha right this ocean of consciousness is the nirguna purusha and in that there is a cup which is floating with water and that water inside the cup is the jivatma the water inside the cup is the jivatma and the cup is the mind the cup is the mind the cup we can imagine the cup as the different components of mind the mahatattva mahatattvam mahatattva, chittam everything so the cup is the mind so what is it that separates the jivatma from the, the from the nirguna nirguna purusha the shuddha purusha uh, even though the jivatma is also is also consciousness jivatma is also consciousness jivatma is also water it is represented by water and the uh the nirguna purusha is also the ocean of is also ocean is water so what is it that separates the jeevatma from the ocean of consciousness is that cup that cup is the mind so when you get rid of the cup then the water gets merged with the, the nirguna purusha so that is the whole uh, you know purpose of our life is to get rid of that ahankara get rid of that mind get rid of that cup when you get rid of that cup then that is what is actually yoga uh, the samyoga द संयोग जीवात्मा परमात्मनोः संयोगः इति यदा वदामः योगः इत्युक्ते जीवात्मा परमात्मनोः संयोगः इति उक्तं खलु तर्हि तत् कथं भवति अण्डर्स्टाण्ड् त्रु दिस् एक्साम्पल् देन् यु गेट् रिड् आफ़् दट् कप् देन् दि वाटर् इन् दप् गेट् मर्स्ड् वित् द ओशन् आफ् कान्शियस्नेस् दट् इस् वाट् इस् योग सो हियर् वाट् वि ट्रैङ्ग् टु एक्स्प्लेन् इस् द the the cup is different from the water the cup is different from the water and even though that the cup has been formed because of that water in that cup right it has been formed it is essentially the water that has been represented by the, uh, by, the by the cup so we where where essentially we're trying to say that this we can imagine that cup that cup as if it is the cup made of uh, you know kind of a water water water kind of cup you can imagine so that cup is also made from that consciousness only so there is nothing besides consciousness so if you see there is only sutta consciousness is ocean of consciousness there is nothing besides consciousness everything that is made the mind is also made from that consciousness so you should not think that the, the cup is something different it is also made from that consciousness the samagri of that cup is also the consciousness right so that is what is explained over here is that atra uh that the, the the the the water is a sakshi satta the water is a sakshi satta and the cup is a different functional form of that sakshi satta is what they need to understand over here as tu spashtam va ambagni am um, aikyam malodeva jivatma paramatma aikyatare nirgata sva am um. um, jivatma paramatma na ho sanyoga hai iti meva mahatra aikyameva tadeva aikyam astu तर्हि अत्र स्थगनं कुर्मः कोऽपि प्रश्नः नास्ति चेत् तर्हि इदानीं किम उक्तं भवत्या अत्र वाटर् इस् द वाटर् इन् दप् इस् अ जीवात्मा वाटर् इन् दीव लिखितम् इदानीम् अन्ते भवत्या उक्तं वाटर् इस् आफ़् कान्शियस्नेस् पूर्वम् उक्तम् इदानीं it is yes, everything is made from this ocean of consciousness there is nothing the the samagri the samagri for making this everything so imagine that is the ocean of uh, in the ocean of consciousness there are many many cups right there are many many cups with water inside it there are many many jivatmas with water inside it right so the cups are also made of that ocean uh, the, the cups are also made of that water and the, and the wa a cup also also holding the water right so Hmm. the only, only difference is that essentially when you know when when the when you get rid of the cup then what remains is only the water only water remains so our, our goal of life is to get rid of that cup is what is the goal of life is to get rid of the, hmm. the antakkarna this is the cup is the samagri here uh, cup is not the samagri the purusha hmm. is the samagri Purusha himself has, is, is because of the impact of the guna is appearing like the cup. So when the gunas are, when you get rid of the gunas, then the cup is also gone. There is no cup anymore. I am a good day. I am a good day. I am a good day. I am a good day. I am a good day. I am a good day.